वैशम्पायन उवाच एवम् बलाविष्टो धर्मराजो युधिष्ठिरः भीष्मद्रोणैर्वीर्यमाणो विदुरेण च धीमता युयुत्सुना कृपेणाथ सञ्जयेन च भारत गान्धार्या पृथया चैव भीमार्जुनयमैस्तथा विकर्णेन च वीरेण द्रौपद्या द्रौणिना तथा सोमदत्तेन च तथा बाह्लीकेन च धीमता वार्यमाणोऽपि सततम् न च राजा नियच्छति शकुनिरुवाच गवाश्वं बहुधेनूकमपर्यन्तमजाबिकम् गजाः कोशो हिरण्यम् च दासीदासाश्च येशनोग्लह एवैको वनवासाय पाण्डवाः यूयं वयं वा विजिता वसेमवनमाश्रिताः त्रयोदशम् च वै वर्षमज्ञाताः स जने तथा अनेन व्यवसायेन दीव्यामपुरुषर्षभाः चैकेन वनवासाय भारत प्रतिजग्राहतम् पार्थोऽ ग्लहन् जग्राहसौ जग्राह बलः जितमित्येव च कुनिर्युधिष्ठिरमभाषत इति श्रीमहाभारते सभापर्वणि अनुद्यूतपर्वणि पुनर्युधिष्ठिरपराभवे षट्सप्ततितमोऽध्यायः